श्रीहरये नमः अथ सप्त चत्वारिंशोऽध्यायः श्रीशुक उवाच तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियं प्रलम्बबाहुन्नवकञ्जलोचनं पीदाम्बरं पुष्करमालिनं लसन् मुकारविन्दं मनिमृष्टकुण्टलं सूचिस्मिता कोऽयमपीश्च कुतस्य कस्याच्युत वेशभूषणः इति स्म सर्वा परिव्रुरुत्सुकाः तमुत्तमश्लोकपदाम्बुजाश्रयं तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासे क्षणसुनृताधिभिः रहसि अपृच्छन्वुपविष्टमासने विज्ञाय सन्देश हरं रमापतेः जानीमस्त्वां यदुपते पार्षदं समुपागतं बर्थ्रेह प्रेक्षितः पित्रोर्भवान् प्रियचिकीर्षया अन्यथा को व्रजे तस्य स्मरणीयं मुनरेपि चष्महे अन्येषु अर्थकृता मैत्री यावदर्थविडम्बनं पुम्भिस्त्रीषु कृता यद्वत्सुमनस्विव षट्पदैः विस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः अधीतविद्या आचार्यं ऋद्विजो द दक्षिणम् खगावीतपलं वृक्षं भुक्त्वा चातितयो गृहं जारो भुक्त्वा संस्मृत्य यानि कैशोरबल्ययोः काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् प्रियप्रस्थापितम् धूतं कल्पयित्वेदमब्रवीत् गोप्युवाच मधुपकितवबन्तो मा स्पृशाग्रिं सपत्न्याः कुच विलुलितमाला भवतु मधुपतिस्तन्मानिनां प्रसादं यदुषटसि विडभ्यं यस्तधूतस्त्वं येतृ सकृदधर सुधां स्वां मोहिनीं पाययित्वा तुमनसैव सत्यस्तत्यजे अस्मान् भवाद्रे परिचरति कथं तत्पादपद्मं तु पद्मा ह्यबिपतकृतचेता उत्तमश्लोकजल्पैः किमिक बहुषडङ्ग्रे गायसि त्वं यधूनाम् अधिपतिमगृकाणामग्रथो विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुसरुजस्ये कल्पयन्तीष्टमिष्टाः दिवि भुवि चरसायां का स्त्रियस्तद्धुरापाः कपटरुचिरः स भ्रुविजृम्भस्य या स्युः चरणरज उपास्तेयस्य का अपि च कृपणक्षेह्युत्तमश्लोकसप्त विसृजसिर सिपादं वेद्यहं चाडुकारैः अनुनय विदुषस्तेभ्येभ्येत्य धौत्यैर्मुकुन्धात् सकृतैक विसृष्टा किं नु सन्धेयमस्मिन् मृगयुरिव कबीन्द्रं विव्यदे लुब्धधर्म बलिमपि बलिमत्वा वेष्टयद्वाङ्क्षवत्यस्तदलमसितसख्येर्तुस्त्यजस्तत्कथार्थहा यतनुचरितलीला कर्णपीयूष विप्रुट् सकृतदन विधूत द्वन्द्वधर्मा विनष्टाः सपदिगृहकुटुम्बं दीनम् उत्सृज्य दीना बहवैः कविगङ्गाभिक्षुचर्यां चरन्ति वयमृतमिव जिह्घृतं श्रद्धधानाः कुलिकरुतमिवाज्ञा कृष्णवध्वो हरिण्यः शतृसुरसकृते तत् तन्न क स्पश्य तीव्र स्मरुजवुपमन्त्रिन् भण्यतामन्यवार्था प्रियस क पुनराघा प्रेयसा प्रेक्षितः किं वरय किमनुरुन्दे माननीयोऽसि मेङ्घा नयसि अपि पदमदौर्याम् आर्यपुत्रोऽधुनास्ते स्मरति स पितृगेहान् सौम्यभन्तुंश्च गोपान् क्वचिदपि स कथा न किङ्करीणा गृणीते भुजमगुरुसु गन्तं मूर्न्यस्यत्कधा नु अध उद्धवो निसंयैवं कृष्णदर्शनलालसाः सान्त्वयन्प्रियसन्देशेद्गोपीरिदमभाषत उद्धवो उवाच अखो भूयं स्वपूर्णार्ता भवत्यो लोकपूजिताः वासुदेवे भगवतीयसामित्यर्पितं मनः दाने व्रत तपोहोम जपस्वाध्याय संयमै श्रेयोभिर्विविदैश्चान्यै कृष्णे भक्तिर्हि साध्यते भगवत्युत्तमश्लोके भवती भिरनुत्तमा भक्तिप्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा दिष्ट्या पुत्रान् पतीन् स्वजनान् भवनानि च हित्वा व्रीणतु यूयं यत् कृष्णाख्यं पुरुषं परं सर्वात्मभावोऽधिकृतो भवतीनाम् अधोक्षजे विरहेण मका भगामहान् मेनुग्रहकृतः श्रूयतां प्रियसन्देशो भवतीनां सुखावकः यमादायगतो गतो भद्रा अकं भर्तूरकस्करः श्रीभगवानुवाच भवतीनां वि योगो मे न हि सर्वात्मना क्वचित् यथा भूतानि भूतेषु कं व्यां कं तताहं च मनःप्राणभूतेन्द्रियगुणाशयः आत्मन्येवात्मनात्मानं आत्मा सृजेहन्यनुपालये आत्मायानुभावेन भूतेन्द्रियगुणात्मना आत्माज्ञानमयः शुद्धो व्यतिकृक्तो गुणान्वयः सुशोक्तिस्वप्नजाग्रद्भिर्माया वृद्धिभिरीयते येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवत् उत्थितः तन्निरुध्यातिन्द्रियाणि विनिद्र त्यागस्तबोधमः सत्यं समुद्रान्ता इवा भगाः यत्त्वकं भवतीनां वै दूरे वर्ते प्रियो दृशां मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया यथा धूरचरे प्रेष्ठे मन आविष्य वर्तते स्त्रीणां च न तथोचेतस्सन्निकृष्टेक्षिगोचरे मय्या वेश्य मनः कृत्स्नं विमुक्ता अनुस्मरन्त्यो मां नित्यं मचिरान् मामुपैषत या मया क्रीडत राध्यां वनेऽस्मिन् व्रज आस्ति ताः अलब्धरा सा कल्याण्यो मा श्रीसुक उवाच एवं प्रियतमादिष्टम् आकर्ण्यव्रजयोक्षितः तावूचुबुद्धवं प्रीतस्तस्कन्दे सघातस्मृतिः कोऽव्यवूचू दिष्ट्याहितोहतकंसो यधूनां सानुगो गगृत् कच्चित् गदाग्रजः सौम्यकरोति पुर पुरयोक्षितान् प्रीतिं न स्निग्धः सव्रीटः सोधारेक्षणार्चितः कथं रतिविशेषज्ञप्रियश्च वरयोक्षितान् नानुभद्येत तद्वाक्ये विभ्रमैश्चानुभाजितः अपि स्मरति नः साधो गोविन्तः प्रस्तुते क्वचित् गोष्ठीमध्ये भ्राम्या स्वैरकथान्तरे ता किं निशास्मरति यासु तदा प्रियाभेन् बृन्दावने कुमुदकुन्तसशाङ्करम्ये रेमे क्वणश्चरणनूपुररासगोष्ठ्याम् अस्माभिरीटितमनोज्ञगतः कथा चेत् अप्येषती कदशार्हस्तप्ता स्वकृतया शुच सञ्जीवयन् नु नो गात्रैर्यधेन्द्रोवनमम्भुतैः कस्मात् कृष्ण इहा याति प्राप्तराज्यो कथाहितः नरेन्द्रकन्यावुद्वाहय प्रीतः सर्वसुहृद्वृतः किमस्माभिर्वनौ गोपे अन्याभिर्वा महात्मनः श्रीपते आप्तकामस्य क्रियेतार्थकृतात्मनः परं सौख्यं कि प्याघपिङ्गलात् तज्जानतीनां न कृष्णे तदाप्यासाधुरत्ययान् कवुत्सहे तस्य त्यक्तुम् उत्तमश्लोकसंविधम् अनिच्छतोपि यस्य श्रीअान् सरिश्चैलवनोद्देशा कावो वेणु रमो इमे शङ्कर्षणसखायेन कृष्णेन आचरिताः प्रभो पुनः पुनः स्मारयन्ते नन्दगोपसुतम्भत श्रीनिकेतैस्तत्पधैकैर्विस्मर्तुर्नैव शक्नुमः गत्या ललितयोद्धारहासलीलावलोकनैहें माध्वा गिराहृतधियक्कथं तं विश्वमरामहें हे नाथ हे रमानाथ व्रजनाथार्तिनासनं मग्नमुद्धर गोविन्दगोकुलं श्रीसुकमुवाचा ततस्ता कृष्णसन्देशव्रपते विरहज्वराः उद्धवं पूजयाञ्चक्रोर्ज्ञात्वात्मानं मदोक्षजम् उमास कतिचिन्मासान् गोपीनां विनुदन् सुचहा कृष्णलीलाकथां गायन् रमयामास गोकुलम् यावन्त्यहानिनन्दस्य व्रजे वात्सीत् सरिध्वनगिरिद्रोणेर्वीक्षन् कुसुमितान्द्रमान् कृष्णं संस्मारयन् रे मे हरिदासो व्रजौकसा दृष्ट्वैव माति गोपीनां कृष्णवेषात्मविक्वलम् उद्धवः परमप्रीतस्तानमयस्य नितं जगौ एताः परं धनुभृतो भुवि गोविन्देव निखिलात्मनिरूढभावाः यत् भवभि अनन्तकथा व्यभिचारदुष्टाः कृष्णे क्वचैव परमात्मनिरूढभावाः नन्वीश्वरोऽनुजतो विदुषोऽपि साक्षात् श्रेयस्तनोद्य गदराज इवोपयुक्तः नायं श्रियोऽङ्गनितान्तरते प्रसादः स्वर्योषितां नळिनघन्तरुचां कुथोन्याः रासोत्सवेस्य भुजदण्ड गृहीतकण्ठ लब्धा सिषां यबुदगात् प्रजवल्लवीनाम् आसामहोचरणरेणुजुषामघं स्यां बृन्दावने किमपि कुल्मलदौषधीनां त्यजं स्वजनमार्यपतं च हित्वा भेजोर्मुगुन्दपदवीं श्रुतिभिर्विमृग्यां या वै श्रियार्चितं अजातिभिराप्तकामैर्योगेश्वरैरपि यथात्मनिरासगोष्ठ्यां कृष्णस्य तत् भगवश्चरणारविन्दं न्यस्टं स्तनेषु बिजहोपरिरभ्यतापम् वन्दे नन्ति वजस्त्रीणां पादरेण अभीक्ष्णसः यासां करिकदोद्गीतं पुनातिभुवनत्रयं श्रीशुक उवाच अथ गोपी अनुज्ञाप्य यशोदां नन्दमेव च गोपान् यास्यन् आरुहेरतं तं निर्गतं समासाद्य ननोपयायनपाणयः नन्धातयोनुरागेण प्रावोचन्नश्रुलोचनाः मनसो वृत्तयो नस्यो कृष्णपादाम्बुजाशयाः वाचोभिधायिनेर्नाम्नां गायस्तत्प्रह्वणादिशो कर्मभिर्भ्राम्यमाणानां यत्र क्वाभीश्वरेच्छयां मङ्गळाचरितैर्धानैरतिर्न कृष्ण ईश्वरे एवं सभाजितो गोप्यैर्कृष्णभक्त्या नराधिप उद्धवः पुनरागच्छत् मथुरां कृष्णपालितां क्रिश्ना कृष्णाय प्रणिपत्याकभक्त्युद्रेकं व्रजौकसां वसुदेवाय रामाय राज्ञेशोपायनान्यताद् इति श्रीमद्भगवते महापुराणे दशमस्कन्ते पूर्वार्धे उद्धव प्रतिने शब्दच्वांशोध्याोपी का गोविंदा गोविंदा गोविंद सद्गुमहराज के जय